एकाक्षो मृतपावीरः प्रलम्बनरकावपि वातापीशत्रुतपनः षठश्चैव महासुरः गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारता सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनं सुचन्द्रं चन्द्रहर्तारुं तथा चन्द्रप्रमर्दनम् क्रूरस्वभावं, क्रूराया, पुत्रपौत्रमनन्तकम् गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः धनायुषः पुनः पुत्राश्चत्वारो सुरपुङ्गवाः विक्षरो बलवीरौ च वृत्रश्चैव महासुरः कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः प्रविख्याता महावीर्या परन्तपाः विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव क्रोधशत्रुस्तथैवान्ये कालकेया इति श्रुताः